मकंडेयपुराणम अयन पक्षिणचु राज्यच्युते हरिश्चंद्रे ग्रिदा लयक्र मा तेजा जलवासापुरो वशिष्ठ द्वादशादे गंगा पर्युषि मुनि शुश्रावचसमस्त विश्वामित्रविचेष्टितम् हरिश्चन्द्रस्य नाशं च राज्ञश्चोदारकर्मणः चण्डालसम्प्रयोगञ्च भार्यातनयविक्रयं सश्रुत्वा सुमाहभागः प्रीतिमानवनीपतौ चकार्यकोपं तेजस्वी विश्वामित्रमृषिं वशिष्ठ वसिष्ठ उवाच मम तेन विश्वामित्रेण खादितं तत्रापि नाभवत्क्रोधस्तादृशो यादृशोऽद्य मे श्रुत्वा नराधिपमिमं स्वराज्यादवरीपिदं महात्मानं महाभागं देवब्राह्मणपूजकं यस्मात् स सत्यवाक् शान्तश्शत्रावपि विमत्सरः अनागाश्चैव धर्मात्मा सपत्नी अमत्तो मदाश्रय सपत्भृतपुत्रस्तु प्रांद नृप सराज्याच्य विदोन बहुशि तस्रात्मद्विप्राज्ञा नाम मच्छापोपहदो मूढस्सभगत्त्वमवाप्स्यति पक्षिण ऊचुः श्रुत्वा शापं महाते जा विश्वामित्रोऽपि कौशिकः त्वमप्याडिर्भवस्तेरिप्रतिशापमयच्छद अन्योन्यशापात्तौ प्राप्तौ तिर्यक्त्वं परमद्विती वसिष्ठः समः विश्वामित्रश्च कौशिकः अन्यजादिसमायोगं गदावप्यमितौ जसौ युयुधा देदिसंरब्धौ महाबलपराक्रमौ यो जनानां सहस्रे द्वे प्रमाने माणेनाडिरुच्छ्रितः यन्नवत्यधिगं ब्रह्मन् सहस्रतृदयं बकः तौदुपक्षप्रहाराभ्यामन्योन्यस्योरुविक्रमौ प्रहरन्तौ भयं तीव्रं प्रजानां चक्रुदुस्तदा विधूयपक्षाणि बको रक्तोद्वृत्ताक्षिराहनद् आडिंसोऽप्युन्नतग्रीवो भगम्पद्भ्यामदाडयत् तयोः पक्षानिलापास्ताः प्रपेदुर्गिरयो भुवि गिरिप्रपादाभिहता चकम्पे च वसुन्धरा क्ष्माकम्पमानाज्जलधीनुद्वृत्ताम्भूंश्चकार नुद्वृत्तां न नाम चैकपार्श्वेन पादालगमनोन्मुखी के जिदिगरिनिपातेन केजिदम्भोधिवारिणा के जिन्मही के सञ्चलनात् प्रययुः प्राणिनः यदि सर्वं परित्रस्तं हाहा भूतमचेतनं जगदासीत् सुसम्भ्रान्तं पर्यस्तक्षिदिमण्डलम् हावत्सहाकान्दशिशो प्रयाह्येषोऽस्मि संस्थितः आप्रिये कान्दशैलोऽयं पदत्याशु लायताम् इत्याकुलीकृते लोके सन्त्रासविमुखे तदा सुरैः परिवृतः सर्वैराजगामपितामहः प्रत्युवाच च विश्वेशास्तावुभावति कोऽपि तौ युद्धं वा विरमत्वेदल्लोकास्वास्थ्यं व्रचन्तु च शृण्वन्तावपि तौ वाक्यं ब्रह्मणो व्यक्तजन्मनः कोपामर्षसमाविष्टो युयुधादे नतस्तधुः ततः पितामहो देवस्थं दृष्ट्वा लोकसंक्षयम् तयोश्च हितमन्विच्छन् तिर्यग्भावमपानुदत् ततस्थौ पूर्वदेहस्थौ प्राहदेवः प्रजापतिः व्युधस्ते तामसे भावे वसिष्ठकौशिकर्षभौ जहि वत्स वसिष्ठत्वं त्वं कौशिकसत्तम तामसं भावमाश्रित्य ईदृग्युद्धं चिकीर्षितं राजसूयविपाकोऽयं हरिश्चन्द्रस्य भूपतेः युवयोर्विग्रहश्चायं पृथिवीक्षयकारकः न चापि कौशिकश्रेष्ठः ठस्तस्य राज्ञोऽपरध्यते स्वर्गप्राप्तिकरो ब्रह्मन्नपकारपदे स्थितः तपो विघ्नस्य कर्तारौ कामक्रोधवशङ्गदौ परित्यजदभद्रं वो ब्रह्म प्रचुरं बलं येवमुक्तौ ततस्तेन लज्जितौ तावु तावुभावपि क्षमयामास दुःप्रीत्या परिष्वज्य परस्परम् तदः सुरैर्वन्द्यमानो ब्रह्मालोकं निजं व्ययौ प्यात्मनस्थानं कौशिकोऽपि स्वमाश्रयम् ये ददाडिबकं युद्धं हरिश्चन्द्रकथां तथा कथयिष्यन्ति ये मर्त्या सम्यक् श्रोष्यन्ति चैव तेषां पापापनो दन्दुश्रुतं ह्येव करिष्यति न चैव विघ्नकार्याणि भविष्यन्ति कदाचन ये ये आदि भग आडिभग युवर्णन नाम नवमोध्याय